केनोपनिषत् प्रथमः खण्डः श्रीगुरुभ्यो नमः हरिः ॐ आप्यायन्तु ममाङ्गानि वा प्राणश्चक्षुःश्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्याम् मा ब्रह्म निराकरोदनिराकरणम् अस्तु अनिराकरणं मेस्तु तदा आत्मनिरतेय उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॐ शान्ति शान्ति शान्तिः हरिः ॐ केनसितं पदति प्रेषितं मनः केन प्राणः प्रथमः प्रैतियुक्तः केनसि तां वाचमिमां वदन्ति चक्षुः श्रोत्रं कौदेवो युनक्ति श्रोत्रस्य श्रोत्रं मनसो भनो यद्वाचो ह सौ प्राणस्य प्राणश्चक्षुषश्चक्षुरितुमुच्यन् धीराः प्रीत्या आस्मान् लोकादमृता भवन्ति न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनो अविदितादति इति शुश्रुमपूर्वे एषां येनस्तद्व्यच्चाख्ये यद्वाचा आ यद्वा, यद्वा आचानाभ्युदितं येन वाभ्युद्यते ए तदेव ब्रह्मतं विद्धिर्णेदं जलिदमुपासते यन्मनसा न मनुते येनाहुर्मनोमतम् तदेव ब्रह्म तं विद्धि नेदं जरिनुमुपासते यश्चक्षुषां न पश्यति येन चक्षुगंसि पश्यति तदेव ब्रह्म तं विद्धि नेदं जलिनुपासते यस्तोत्रै न शृणोति येन श्रोत्रमिदं श्रुतं तदेव ब्रह्म तं विद्धि नेरं जलिनुमुपासते यत्प्राणीन्न प्राणिते येन प्राणप्रणीयते तदेव ब्रह्म संवृद्धिर्नेरं यदिमुपासते यदि मन्यसे सुवेदेति तद्भ्रमेवापि नूनं तं वेत्थब्रह्मणो रूपं यदस्य तं यदस्य देवेश्वतनु मीमांस्यमेव ते मन्ये विदितम् नाहं मन्येषु वेदेति नो नो न वेदेति वेद च यो नस्तद्वेदत्तद्वेद नो न वेदेति वेद च यस्यां मतं यस्य न वेदसः अविज्ञातं विजानतां विज्ञातम् अविजानताम् प्रतिबोधविदितं मतमृतत्वं हि विन्दते आत्मना विन्दते वीर्यं विद्यया विन्दतेऽमृतम् इह चे द्वे वेदीदथ सत्यमस्ति न चेदिहा वेदिन् महती विनष्टिः भूतेषु भूतेषु विचिन्त्य धीराः प्रीत्या अस्मान् लोकादमृता भवन्ति ब्रह्म देवे एभ्यो विजिज्ञे तस्य ब्रह्मणो विजये देवा अमहीयन्त त एक्षन्ता स्मा आकमेवायं विजयोस्मा आकमेवायं महिमेति तद्धैषां विजज्ञौ तेभ्योः प्रादुर्बहूव तन्यव्यजानत किमिदं यक्षमिति ते ज्ञेमब्रुवन् जातवेद एतद्भिजाडीहि किमेतद्यक्षमिति तथेति तभ्यद्रवत्तं तमभ्यवदन् कोऽसी इत्यग्निर्वा अहमस्मीत्यब्रवी जातवेदा वा अहमस्मीति तस्मैघं त्वयि किं वीर्यमित्युपदीपीदगं सर्वम् दहेयं यदिदं पृथिव्यामिति तस्मै तृणं निधावे तद्दहेति तरुपस्प्रेयाय सर्वजवेन तन्न शशाकदुग्धं च तत एव निवृत्ते नैतदसुखं विज्ञातुं यदेतद्यक्षमिति अथ वायोमब्रुवन् वायुवे तद्भ्यजानीहि किमेतद्यक्षमिति तथेति तदभ्यद्रुवत्तमभ्यद्वदत्कोशीति वायुर्वा अहमस्मीत्यब्रवीन्मातरिष्वा वा अहमस्मीति तस्मिग्गं तये किं भीर्यमित्यपीदगं सर्वमादधीयं यदिदं तस्मै तीणं न दधावेतदात्तत्वेति तदुपप्रेयाय सर्वजवेन तन्न शशाकाद्धातुं च तत एव निवृत्ते नैतदसुखं विज्ञातुं यदेतद्योक्षमिति अथेन्द्रम् अब्रुवन्मघवन्नेतद्विजानीहि किमेतद्यक्षमिति तथेति तदभ्यद्रवत्तस्मातिरोदधे तस्मिन्नैवाकाशे श्यमाजगां बहुशोभमानां मागं हेमवतिं तागं भोवाच किमेतद्यक्षमिति सा ब्रह्मेति होवाच ब्रह्मणो वा एतद्विजये महीयद्धमिति ततो हैव वेदाञ्चकारब्रह्मेति तस्माद्वा एते देवा अतितरा विमान्यान् देवान्यदग्निर्वायुरिन्द्रस्ते श्येन दिष्टं पस्परसुस्ते श्येनत्प्रथमों विदाञ्चकारब्रह्मेति तस्माद्वा इन्द्रोऽतितरामि वाण्यान् देवान् स हिनन्देदिष्टं पस्परस स हेन प्रथमो विदाञ्चकार ब्रह्मेति तस्यै स आदेशो यदेतद्विद्युतो वैद्युतदा एतेऽन्यमी सदा यद्यतिदैवतम् अथाध्यात्मं यदि तद्गच्छतीव च मनोजेन चैतदुपस्मत्यभि ईक्ष्णगं सङ्कल्पः तद्ध तद्वनं नाम तद्वनं वृत्युपासितव्यं शय एतदेव वेदाभिहैनगं सर्वाणि भूतानि संवाञ्छन्ति उपनिषदम् भो ब्रूहित्युक्तात्त उपनिषद ब्राह्मीं वावत उपनिषदम् अब्रुमेति तस्यै तपोदमकर्मेति वेदा सर्वा अङ्गानि सत्यमायतनम् यो वा एतामेवं वेदापहत्य पाप्मानमनन्ते स्वर्गे लोके जेये प्रतिष्ठति प्रतितिष्ठति ॐ शान्तिः शान्तिः शान्तिः हरिः ॐ तस्य श्रीरामकृष्णार्पणमस्तु